हरि ओम् श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे द्वितीयस्कन्धे नवमोऽध्यायः परीक्षेर्वाच कामातश्च निर्गत्वा रुप् सुप्तो निजा पिता पप्रच्छ दीनम् तम् किम् रुरोऽपि मनासि स्वम् महाति कामात स्थूलकेशस्य च श्रमे कन्याप्रमज्वरा नाम सा मे भार्या भवेदिति स गत्वा प्रमते स्थूलकेशं स्थूलकेशम् महामुनिम् प्रमोह्य सुखमसुमुखम् कृत्वा यया चेताम्बरानम् ददोवाचम् स्थूलकेश प्रदास्यामि शुभेऽहनि विवाहार्थञ्च संभारम् रचयामा सुतुर्वने प्रमति स्थूलकेशश्च विवाहार्थम् समुद्यतौ बहूवतो महात्मानोऽ समीपस्थो तपोवने तस्मिन्नवसरे कन्या रमाणा गृहाङ्गणे प्रसुप्तम् पन्नगम् पादे नासृशश्चालुलोचना दष्टासु तु पन्न दृष्ट्वा प्रमध्राम् मिलिताय मुनयत् सर्वे शुक्रुशुशोकसंयुताः भूमौ तां पतिताम् दृष्ट्वा पिता तस्याति दुःखितः रुरोध विगतप्राणाम् दीप्यमानाम् सुतेजसा रुरुः श्रुत्वा तदा क्रन्दम् दर्शनार्थम् समागतः ददर्श पतितां तत्र सजीवामिव कामिनीम् ऋदन्तम् स्थूलकेशं च दृष्ट्वा रुरुस्थानाद्भिर्गत्वा रुद विरहकुल अहो दैवेन सपोऽयं प्रेषित परमादृत मम शर्म विघाताय दुःखहेतोऽयं गिर किं करोमि क्व गच्छामि मृता प्राणवल्लभा न वै जीवितुमिच्छामि व्युक्त प्रिययानया नारिङ्गितावररुह न मया मुखे न पाणिग्रहणम् प्राप्तं मन्दभाग्ये न सर्वथा राजाहोम तथा चाग्नो न कुत स्वनया सह मानुषम् दीर्घिरम् कामम् गच्छन्त्वाद्य ममासवः दुःखितस्य नव मृत्यु सुखं समुपैतिः सुखम् तर्हि कथं दिव्यम् अप्यते भुवि वाञ्छितम् प्रपतामि हृदये पावके प्रपताम्यहम् विषमग्नि गणे पाशं कृत्वा प्राणाश्रया त्यजाम्यम् विलप्यैवं विचार्य मनसा पुनः उपायं चिन्तयामा सितस्तस्मिन्नदीतरे मरणात् किं फलं मे च आत्महत्या दुरत्यया दुःखितश्च पिता मे जननी दैवस्तुष्ट भवि काम धुवाजीत प्रमोदित मेनाथ सोचय उपकार प्रियादे मृत मयीघातेरहात्मघाति एतदर्थम् मृते दोषा मयि मुते पुनः विमृश्यैव रुरु तत्र स्नात्वा चम्य शुचिष्ठित अब्रवीत् वचनम् कृत्वा जलम् पाणौ असौ मुनिः यन्मया सुकृतम् किञ्चित् कृतम् देवाचनादिकम् गुरवः पूजिता भक्त्या हुतम् जप्तम् तपक्कृतम् अधितास्तूला वेदा गायत्री संस्कृता कविराराधितेन सन्धिवक्स्तु मम प्रिया यदि जीवेन्न मेकान्त इत्युक्ता तज्जलम् भूमौ चिक्षे पाराध्यदेवता राजोवाच एवं विलेपदत्तस्य भार्या दुःखितस्य च देवदूतस्य लाभे च वाक्यम् आहरं मा काक्षी सः सम्ब्रह्मन् कथं जीवेन्मृता प्रिया गतायुरेषा शुश्रोडे गन्धर्वात्सरसोसुता अन्याम् कामय चार्वङ्गीम् मृतेयम् च विवाहिता किं रोदिषि सुदुर्बुद्धे काप्रीति सेनया सह सुरुवाच देवदूत न चान्यां वै यदि जीवेन जीव जीवेन्न मर्तव्यम् च अधुना मया राजोवाच विजित्वेति हठम् तस्य देवदूतो मुदान्वितः उवाच वचनम् तथ्यम् सत्यम् चातिमनोहरम् उपायं शृणु विप्रेन्द्र विहितं यत् सुरीपुर आयुषोधप्रदानेन जीवयाशु ब्रह्मद्वराम् आयुषोधम् प्रयच्छामि कन्या येन प्रशंशये अत्यप्रत्यावृतप्राणा प्रतिष्ठस्तु मम प्रिय विश्वासु तदा तत्र विमानेन समागतः ज्ञाता पुत्रीम् मतां चासु सर्गलोकात्मध्वराम् ततोऽगन्धर्वराजश्च चा देवसूतश्च सप्तमः धर्मराजम् उपेत्येदम् वचनं प्रत्यभाषताम् धर्मराज रुरो पत्नी सुदा विश्वावसु तथा वता प्रमधरा कन्या दष्टा सर्पेण च अधुना सा रुरोरायुधोर्धेन मत्तु कामस्य सूर्य समुत्तिष्ठ तु तन्वङ्गीवसचर्या प्रभावतः धर्म उवाच विश्वावसु सुधां कन्यां देवदूत यदिच्छति उत्तिष्ठत्वायुषोर्धेन ऋणं गत्वा तु समर्पय राजोवाच एवं मुक्तः सो गत्वा जीवयित्वा प्रमराम् रुसमर्पयामास देवदूत तदशुभे नैवरुणापि विवाहितः इत्थं चोपाययोगेन मृताुज्जीवितः तदा उपायस्तु प्रकर्तव्य सर्वथा शास्त्रसम्मतः मणिमन्त्रौषधीभिश्च विधि वय तृणरक्षणे इत्युक्त्वा सचिवान् राजा कृपयित्वा सुरक्षकाम् कारयित्वा प्रासादम् सप्त भूमेकमुत्तमम् आरुहोत्तरासूनौ सचिवै मणिमन्त्र धराशूर स्थापिता सत्र रक्षणे प्रेषयामास भूपालो मुनिम् गौरमुखम् सादार्थं सेवकस्य क्षमस्वेति पुनः पुनः ब्राह्मणान् सिद्धमन्त्रज्ञानक्षणार्थम् इतस्ततः मन्त्री पुत्र स्थितस्तत्र स्थापयामासु दन्तिनः न कश्चिदारुहे तत्र प्रासादे चातिरक्ष्यते वा कोऽपि तत्र प्रवेशे विनिवार्यते भक्ष्य भोज्यादिकं राजा तत्र स स्नानसन्ध्यादिकं कर्म तत्रैव विनिवर्त राजकार्याणि सर्वाणि तत्र मन्त्रिभिः सम्मन्त्र्य गणयन्दिवसानपि कश्चिच्च कश्चिपो नाम ब्राह्मणो मन्त्रि सप्तमः शुश्रावय च तथा शातं प्राप्तं राज्ञा महात्मनः स धनार्थी द्विज कश्चप समचिन्तयेत् वजामि तत्र यत्र ते शप्तो राजा द्विजयेन इति कृता मतिं विप्र स्वगृहान् निःसृतपथि कश्यपो मन्त्रविद्विद्वान् धनार्थी इति श्रीमद्देवी भागवते मा पुराणे तादृशतास्यां सहितायां द्वितीयस्कन्धे परीक्षितराज्ञो गुप्तगृहे वासवर्णनं नवमोऽध्यायः जी जगदियापणमतू